मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं ट्वेण्टि फोर् श्रावणकृष्णचतुर्थी माहात्म्यवर्णनं श्रीगणेशाय नमः दशरथ उवाच श्रावणे कृष्णपक्षेया चतुर्थी संकडी भवेत् माहात्म्यं वदतस्यामे तस्यामे सर्वेभ्यः सुखदायकम् वसिष्ठ उवाच इतिहासम्प्रवक्ष्यामि श्रावणे संगडीभवं श्रवणात् सुखदपूर्णो भवते पठनात् तथा चन्द्रवंशे समुत्पन्नो युधिष्ठिरः धर्मशीलो वदान्यश्च मान्यान्मानयिता भृशं साक्षाद्धर्मावताराश्च सत्य वा करुणायुधः पाण्डुपुत्रो महातेजा प्रजापालनतत्परः द्रौपद्याभ्रातृभिश्चैव सहितः सर्वसम्मतः कुन्द्या महाभागो विख्याद सर्वमण्डले कृष्णो यस्य सहायो भूत्सदा वृष्णिकुलोद्भवः साक्षान्नरायण श्रीमान् भूभारहरणे रतः यकदा स्वगृहे राजा संस्थितो राजभिर्वृतः राजसोऽयं महायज्ञम् कृत्वा कृष्णविवर्जितः धृतराष्ट्रेण तत्रैव प्रेषितो विदुरस्वयं आजगामस तं दृष्ट्वा मानयामास कुन्दिजः वोजिदं परमान्येन विदुरं सदसि स्थितं तमुवाजमहाभागो हर्षितः युधिष्ठिरः धन्यं मे जन्मकर्मादित्वदङ्घ्रियुगदर्शनाद् वयं पाल्याः सदाता दत्वया धर्मभृदा प्रभो कुशलं स्वजनानां ते कुमर्थं त्वं समागधः वद मे सकलं पूर्णं वृत्तान्तं धृतराष्ट्रगं विदुर उवाच सर्वत्र कुशलं वत्सस्वजनेषु महामदे धृतराष्ट्रस्य दुर्बुद्धेरादराद्वजनं शृणु पुत्रवत्सलभावेन दुर्योधनसमाश्रितः तेनाहं प्रेषितो भूप त्वत्समीपे विचक्षणः इच्छदि त्वां विजेधुं स प्रभो द्युदेन मन्दधीः दुर्योधनो महाभावि कुलक्लेशविवर्धनः कर्णेन प्रेरितोऽत्यन्तं शकुनिना विशेषतः सकृस्ते राज्यहरणे दुःशासनसमन्वितः धृतराष्ट्रस्तथा राजन् मन्यदे मनसि सत्वा सत्त्वामाह्वयदे लोभी मया चैव युधिष्ठिर मा गच्छ दुर्मदिं तादपुत्रपक्षसमाश्रितं धृतराष्ट्रं च कुन्त्या त्वं सस्त्रीको भ्रात्यभिक्कदा वसिष्ठ उवाच विदुरस्य वच श्रुत्वा युधिष्ठिरो मया यशाः महाभागं निःश्वस्य वचनं हितं युधिष्ठिर उवाच शृणुतादमदीयं त्वं वाक्यं धर्मयुधम् महद राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः तदाज्ञावशगाः सर्वे वयं भीष्माधय किल अदो यामि त्वया सार्धं भावि यत्तद्भविष्यति धर्मयुक्तं वच श्रुत्वा विदुरः महायशाः विदुरेण युधाः सर्वे सस्त्रीकाः पाण्डवानृप समागताश्च द्रौपत्या धृतराष्ट्रं सभा स्थितं तेनाज्ञाप्ताश्च ते सर्वे भ्राधरकलहेरताः चिक्रीडुर्दुतमुग्रं वै दुर्योधनमुखैः पुरा शकुनिना महोग्रेण तपसा साधितं पुरा द्यूतम् तदेव राजेन्द्र तदधीनम् बभूवः क्रमेण राज्यमुग्रम् तत् सर्वम् जित्वा सुयोधनः वनवास्ये पाण्डवान् स स्थापयामास दुर्मदिः द्रौपदीतेन दुष्टेन सभायां सर्वसन्निधौ समानीदासतां प्राहपत्नी मे भव सुन्दरि पतयः पञ्चपुत्रापि न दृश्यन्ते स्त्रिया क्वचिद अस्माकं कुलजं सर्वं यशो नष्टं त्वयाखले खले भ्रातां नग्नां चक्रे महाकलः भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः पाण्डवाधर्मरक्षार्थमसहंस्तस्य कर्म तद द्रौपद्याः संस्मृतकृष्णो गुप्तरूपधरो ययौ मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः चकारच तदः सर्वे क्षुभिधा स्वगृहं ययुः द्रौपदीपाण्डवै सार्धं ययौ मुक्ता वने तदा तत्र कृष्णः समायाधो बलेन क्रोधसंयुधः उवाच राजशार्दूलं युधिष्ठिरं प्रदापवान् कृष्ण उवाच अस्त्वा दुर्योधनम् ताद सपक्षं राज्यकामुकम् त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च धर्मराजस्तु धर्मराजस्तु जगादवचनं हितम् क्रोधं त्यजमहाभाहो धर्मं रक्ष जनार्दन धर्मयुक्तं च राज्यं मे देहि वृष्णीकुलोद्भव एवमुक्तो महातेजा कृष्णस्तं प्रत्युवाचः कुरुत्वं भ्रातृभिः सार्धं गणेश्योपासनं स्त्रिया सत्या सत्यसमानाव्यक्तैश्चतुर्धा बभौ प्रभुः स्वानन्द वासकर्ता सावस्माकं कुलदैवतं एवमुक्त्वा ददौ तस्मै प्रभुमन्त्रं दशाक्षरं सविधिं हर्षसंयुक्तसर्वसिद्धिकरं परं माहात्म्यं व्रतजं तत्र श्रावयामास केशवः युधिष्ठिरस्य सर्वं वैपुण्यदं भ्रान्तिनाशनम् चतुर्विधप्रदं पूर्णं सर्वादौ सम्मदं व्रतं कृदं चेत् कर्म तत्सर्वं सफलं भवति प्रभो तव राज्ये व्रतं मुख्यं नष्टं तेन महामदे राज्यभ्रष्टश्च सञ्जातश्चतुः पदविवर्जितः राजा श्रुवा युधिषिरोम्हायश गणेश मन से ध्याचकार विधि तराद्रावणे मासे संकटनाशिनी चतुर्धेता साधयामासाज शुक्ल कृष्ण चुर्धीज व्रतम चक्रुश्च पाण्डवाः सस्त्री कास्तेन सर्वे वनेषु सुखिनोऽभवन् पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनं हत्वा सर्वनृपैर्युक्तं कृष्णेन हर्षसंयुधः पुनस्तेन पृथिव्यां तद्विख्यातम् प्रकृतं व्रतं शुक्लकृष्णचतुर्धीजं चक्रु सर्वे जनास्ततः इह भुक्त्वाखिलान् भोगान् पौत्रं पा राज्येऽभिषिच्यते पाण्डवाज्ञानसंयुक्ता बभुस्वांशेषु सङ्गताः अन्ये जना क्रमेणैव गदा गाणेश्वरं पदम् दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम अन्यशृणु महाभागमहापुण्यप्रदं परम् कर्णाटे कारुकः कश्चिन् महापापपरो भवद वनेषु शस्त्रधारी जनाञ्जखान स नित्यदा परस्त्रियं तत्र दृष्ट्वैकाकिनीं स तदा दराद अयभद्धड्ढसंयुक्तो बलेन स महाकलः गोवधादिकमेवं सब्राह्मणानां च चकार दुष्टभावेन द्रव्यार्थं मां सकारणाद एवं नित्यं वने गत्वा पापं चक्रे सदुर्मतिः चोरो ग्रामे जनाञ्जघ्ने गृहीत्वार्थं विशेषतः कदाचित् स वने गत्वा गुहायां संस्थितोऽभवद जनान् हन्तुं महाचोरस्ततो वृष्टिर्बभूवः अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः यत्र तत्र जलं पूर्णं गन्तुं मार्गो न विद्यते तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप दैवयोगेन सा चतुर्थी तिथिराबभौ श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभं कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावधः चन्द्रोदये समुत्पन्ने जले नागदमादराद फलं च नारिकेलं यत्तद्बभं च बभक्षसः निशाशेषे बहिः निःसृतस्तत्र चाययौ व्याघ्रसङ्गृह्यतं कत्वा बभक्षुधितो भृशं गानपास्तं सम्प्रगृह्य ययुस्वनन्दके पुरे चक्रो व्रतप्रभावेण तत्र महापापी व्रते नैव ज्ञानजेन नृपात्मजा ब्रह्मभूतो बभूवाध वर्णये किं महाद्भुतं नानाजना व्रते नैव भुक्त्वा भोगान् हृदीप्सितान् ययुस्वानन्दके वर्णयितुं तत्र न शक्यते इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्त्रिं स विन्ददी ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थी माहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ओ